अथ चतुस्त्रिंशः सर्गः ततः शूर्पणखाम् दृष्ट्वा ब्रुवन्तीम् परुषम् वचः अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छरावणः कश्च रामः कथम् वीर्यः किम् रोपः पराक्रमः किमर्थम् दण्डकारण्यम् प्रविष्टश्च सुस्तरम् आयुधम् किम् च रामस्य येन ते राक्षसाहताः खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा तत्त्वम् ब्रूहि मनोज्ञाङ्गिकेण त्वम् विरूपिता इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ततो रामम् यथा न्यायमाख्यातुमुपचक्रमे दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः कन्दर्पसमरूपश्च रामो दशरथात्मजः शक्रचापनिभम् चापम् विकृष्य कनकाङ्गदम् दीप्तान् क्षिपति नाराचान् सर्पानिव महाविशा नादारम् शरान् घोरान् निमुञ्चन्तम् महाबलम् न कार्मुकम् विकर्षन्तम् पश्यामि संयुगे हन्यमानम् तु पश्यामि शरवृष्टिभिः इन्द्रेणेवोत्तमम् सस्यमाहतं त्वष्म वृष्टिभिः भी रक्षसाम् भीमवीर्याणाम् सहस्राणि चतुर्दशा निहता निशरैस्तीक्ष्णैस्तेनैकेन पदातिना अर्धाधिकमुहूर्तेन खरश्च सह दूषणः ऋषीणामभयम् दत्तम् स्त्रीवधम श्राण विदिता भ्रता चा से महातेजा गुणतस्तु्य विक्रम अणुक्त भक्त लक्ष्मणो नाम वीर्यवान्न अमर्षी दुर्जयेताक्रो बुद्धिमा बली राम से दक्षिणों बहुर्णो बहिश्चर रामस्य तु विशालाक्षी पूर्णेन्द्रसदृशानना धर्मपत्नी प्रिया नित्यम् भर्तुः प्रियहितेरता सा सु केशीसु नासोरू सुरूपा च यशस्विनी ना दी न न न ग्ध नक्षी च किूपा मा नी दुष्टपूर्वा महीत य भव हृष्टा पिस्वजे अभीजीवे सर्व लोकेशीला वपुश्लाघ्याति तवानुरूपा भार्या सा त्वम् च तस्याः पतिर्वरः ताम् तु विस्तीर्ण जघनाम् पीणोत्तुङ्गपयोधरा भार्यार्थे तु तवानेतुमुद्यताहम्बराननाम् विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुजा ताम् तु दृष्ट्वाद्य वैदेहीम् मन्मथस्य शराणाम् विधेयो भविष्यसि यदि तस्यामभिप्रायो भार्या त्वे तव जायते शीघ्रमुद्ध्रियताम् पादो जयार्थमिह दक्षिणः रोचते यदिते ते वाख्यम् ममैतद्राक्षसेश्वर क्रियताम् निर्विशङ्केन वचनम् मम रावणा विज्ञायैषामशक्तिम् च च महाबला सीता तवानवद्याङ्गी भार्या त्वे राक्षसेश्वरा निशम्य रामेण शरैरजिह्मगैर्हताञ्जनस्थानगतान्निषाचरा खरम् च दृष्ट्वा निहतम् च दूषणम् तमध्यकत्यं कत्यम् प्रतिपत्तुमर्हसि इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे चतुस्त्रिंशः